Notes on Chandra Shekharashtakam Chandra Shekharashtakam is written by Markandeya Maharshi in the meter Mallika. Mallika is an 18-letter meter consisting of six ganams of three syllables each. The ganams are Ra, Sa, Ja, Ja, Bha, ra raganam saganam jaganam jaganam bhaganam raganam i have chanted the chandrashekharashtakam as per the meter happy chanting chandrashekharashtakam o oh. रत्नसानुशरासनं रजदाद्रिशृङ्गनिकेतनम् शिञ्जिनी कृतपन्नगेश्वरमच्युदामलसायधम् क्षिप्रदग्धपुरत्र चन्द्रशेखरमाश्रये मम किङ्करिष्यदि वै पञ्चपादपुष्पगन्धपदाम्बुजद्वयशोभितम् फाललोचनजादपावगदग्धमन्मद विग्रहम् भस्मदिग्दले वरम् भवनाशनम् भवमव्ययम् चन्द्रशेखरमाश्रये मम मुख्य दिव्यम मतवार मुख्यचर्मकृदोत्मनोहर पंकसन पदलोचन पूजितांग्रिसरोह देव सिंधुतरंगशीशिटुभ्रजड़ादर चन्द्रशेखरमाश्रये मम किङ्गरिष्यदि वै यम यक्षराजसगम्भगाक्षहरम्भुजङ्गविभूषणम् शैलराजसुधा परिष्कृतचारुवामकलेबरम् क्ष्वेलनीलगलम् चन्द्रशेखरमाश्रये मम किङ्गरिष्यदि वै यम कुण्डलीकृतकुण्डलीश्वरकुण्डलम् वृषवासनम् नारदादिमुनीश्वरस्तुतवैभवम् भुवनेश्वरम् अन्धकान्दकमाश्रितामरपादपं शमनान्दकम् चन्द्रशेखरमाश्रये मम किङ्गरिष्यदि वै यम वेषजम्भवरोगिणामखिलाभदामपसारिणम् दक्ष यज्ञविनाश नन्द्रिगुणात्मगन्त्रिविलोचनम् भक्तिमुक्तिबलप्रदं सकलाखसङ्कनिबर्षणम् चन्द्रशेखरमाश्रये मम किङ्गरिष्यदि वै यम भक्तवत्सलमर्चिदन्निधमक्षयं हरिदम्बरम् सर्वभूतपदिं परात् परमप्रमेयमनुत्तमम् चन्द्रशेखरमाश्रये मम किङ्करिष्यदि वै यम विश्वसृष्टिविधायिनम् पुनरेव पालनतत्परम् संहरन्दमभिप्रपञ्चमशेषलोकनिवासिनम् क्रीडयन्तमहर्निशङ्गणनादयूदसमन्नितम् चन्द्रशेखरमाश्रये मम किम् करिष्यदि वै यम मृत्युभेदमृकण्डुसूनुकृतं स्तवं शिवसन्निधौ यत्र कुत्र मृत्युभयम् भवेत् पूर्णमायुररोगदामखिलार्थसम्बधमादरम् चन्द्रशेखर एव तस्य ददादिमुक्रिमयत्नदा चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि चन्द्र शेखर चन्द्रशर चन्द्रशर क्षमा